च काले महाभागजन्ममासं प्रविश्य कुमारं जनयामास हरिश्चन्द्रमकल्मषं स वै राजा हरिश्चन्द्रस्यै शङ्कय इति स्मृतः स राजा बलवान् आसीत् तस्य सर्वे महीपालाः शासनावनता स्थिताः तेनैकं रथमास्थाया जैत्रं हेमविभूषितं शस्त्रप्रतापेन जिताद्वीपाः सप्तजनेश्वरा स निर्जित्यमहीं कृत्स्नां सशैलवनकाननाम् आजहारमहाराजाराजसूयं महाक्रतुं तस्य सर्वे महीपाला धन्या जुराज्ञया द्विजानां यज्ञे च ते भवन् च द्रविणं प्रीत्या याचकानां नरेश्वरः यथोक्तवन्तस्ते या तस्मिंस्ततः पञ्चगुणाधिकम् अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणंस्तदा प्रसर्पकाले सम्प्राप्ते नानादिभ्यः समागतान्